शुक्लां वरधरां विष्णु शशिवर्णं चतुर्भुजं प्रसन्नवदनं ज्ञायेत् सर्वविघ्नोपशान्तये त्यायुक्तो यदि भवति शक्तः प्रभवितुं न चेद्देवं देवो न खतु कुशलकस्पन्दितुमपि अतस्त्वामाराध्या हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति नीयां सम्पांशु तव चरणपङ्केरुघभवम् विरिञ्चिकि सञ्चिवल् विरचयति लोकान् अविकलम् भगत्येन शौरि कथमपि सदस्रेण शिरसा हरकसंशुद्धेन भजति भसितोद्धूलन विधिम् अंतस्ति अन्तस्तिमिरमिहिरद्वीपनके जडानां चैतन्यस्तबक मकरन्दश्रुतिझरीये दरिद्राणाम् चिन्तामणिगुणनिका जन्मजलधौ निमग्नाम् दंष्ट्रा मुररिपुवराकस्य भवति त्वदन्यकपाणिभ्याम् अभयवरदो दैवतगणका त्वमेका नैवासि प्रकटितवराभीत्यभिनया भयात्रातु दातु फलमपि च वाञ्छासमधिकं चरण्येर्लोकाना तव हि चरणा वेव निपुणो सौभाग्यजननी पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् स्मरोऽपि त्वां नत्वा कृतिनयनलेघे न वपुषा मुनीनाम् अप्यन्तः प्रभवति धनु पुष्प मौर्व मधुकमी पंचवीशिका वसम तक मलयुदु आयोधनरख तथाग सर्व किम गिरी का अपागत् लघ्म जगति दमनगो विजयते काञ्चीमा करिकलभकुम्भस्तननत परिक्षीणा मध्ये परिणतशरश्चन्द्रवदना धनुर्बाणाम् पाशम् शृणिमपि दधानाकरतलै पुरस्ता तु आस्तान्नख पुरमथितुः षि सुधा सिंधोर्म्ये सुरबिट पिवाटी पिवृते मणिदीपे नीपोपवनवती चिंतामणिगृह शिवाकरे मंचे परम शिवपर् कलया भजन्तु त्वाम् धन्याक कति च न चिदानन्दलकरी मही मूलाधारे कमपि मणिपूरे हुतवकम् स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथम् सकस्रारे पद्मे सकरखसि पत्या विहरसे सुधारासारैः चरणयुगलान्तर्विगलितैः प्रपञ्चं सिञ्च पुनरपि रसाम्नायमघ सग अवात्म्य स्वा भूमि भुजगनिभू अद्युष्टबलय स्वमात्मा स्विशिकुकू डेकुकि चतुर्भ श्रीकंठ युवतिभिः पञ्चभिरपि प्रभिन्नाभिः शम्भोः नवभिरपि मूलप्रकृतिभिः चतुश्चत्वारिंशत् वसुदलकलाश्रुवलय त्रिरेखाभिः सार्धं तव चरणकोलाकपरिणताय सौन्दर्यम् दुहिदगिरिकन्ये तुलयितु कवीन्द्रागकल्पात् कथमपि विरचिप्रभृदय यदा लोकौ सुमरललनायान्ति मनस तवा दुष्ट्रापामपि गिरिससायुज्यपदवे नरं कर्षीयांसं नयनविरसं नर्मसु तवा पाङ्गालोके पतितम् अनुधवन्ति शतशः गणद्वेणीबन्धाः कुचकलशविस्रस्तसिचया हठादृट्यकाञ्चय का। विगलितदुकूलाकयुवतयकया चाशाशुदे हुष्टिचतर पंचाशदन दिव्य दिवश मनसी चु ष्टि मयू तेषामभ्युपरि तव पादां भुजयुग शरजोत्स्नाशुद्धम् शशियुत जटाजूटमकुट वरत्रासत्राण स्फटिकघटिका पुस्तककरा सकृत्वा नत्वा, नत्वा कथमिव सदा सन्निदधते मधुक्षीरद्राक्ष मधुरि मधुरीणाक मधुरी णित कवींद्राण चेतक कमल वन बाचि भजंते ये सूत कतिचिुमे विचि प्रेय प्रेयस्याग तरुणतर नी गभरा पा विदति सदा जनमी शशिमणिशिलाभङ्गरुचिभिः वशिन्यात्याभिगित्वा सहजननि सञ्चिन्तयति यग सकर्ता काव्यानां भवति महता देवी वदन कमल मोद मधुरैः तनुच्छायादि तरुणतरणिश्रीसरणिभिः दिवं सर्वं पूर्वी तरुणि मणिमग्ना स्मरति य भव ्यरिणशारीनयनाका स गो वश्यावश्याक कति कति न गीर्वाण कृत्वा कुचयुगम् अधस्तस्य ददधो हरार्धम् ध्यायेद्यक हरमयिषिते मन्मथकला स नयति वनिता यत्यति लघु त्रिलोकीमप्याशुभ्रमयति प्रवीन्दुस्तनयुगा किरन्ती मङ्केद्यः किरणनिकुरुम्बामृतरस हृदि त्वामाधत्ते किमकरशिला मूर्तिविवयः स सर्पाणां दर्प शमयति शकुन्तधिपैव वरपृष्ठान् दृष्ट्या सुखयति सुधाधर शिरया तटिल्लेखातन्वीम् प न शिवैश्वानरमयी निषण्णां षण्णामप्युपरि कमलानां तव कलाम् मगापद्माटव्यां पश्यन्तो दधति परमा भवानि त्वं दासे मयि वितर दृष्टिं सकरुणया इति स्तोतु वाञ्छ कथयति भवानि त्व इति यघ सदैव त्वस्मै दिशि निजसायुज्य पदवीम् मुकुन्द्रह्मेन्द्रस्फुटमकुटनीरापद त्वया कृत्वा वामं बपु अपरितृप्तेन मनसा शरीरार्धं शम्भोः अपरमपि शङ्के कृतमभू यदेतत्त्वद्रूपं सकलमरुनाभौ तृनयनम् कुचाभ्याम् आनन्द्रं कुटिलशिचूडालमकुटम् जगत्सूते धाता हरिगवति रुद्रकक्षपयते तिरस्कुर्वाण्येतत् स्वमपि स्वपुरीशस्त्रयति सदा पूर्वक सर्वगृह्णति च शिवकस्तवाज्ञाम् आलम्ब्य क्षणचलितयोः भूलतिकयोः त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरण विरचित तथापन मणिपीठ से शुकुितकत्तम समकु विरीचि पंच व्रजति हरीरानोतिरति विनाशं किनाशक भजति धनगोयाति निधम् वितन्त्रि माघेन्द्रि विततिरपि सङ्गलितदृश महासुकारस्तु विकरति जपो जल्पः शिल्पम् सकलमपि मुद्रा विरचना गतिः प्रादक्षिण्यक्रमणम् अशनात्याकृतिविधिः प्रणामः सन्देशकुखमखिलम् आत्मार्पणदृशा सपर्यापर्यायस्तव भवतु यन्मे विलसितम् सुधामपि आस्वाद्य विपथ्यन्ते विश्वे विधिशतमकाध्यादिविशतकरा यश्वेलं कबलितवतः कालकण न शम्भोः कमूलं कमगणनि काटङ्कमहिम् किरीटं वैरिञ्चं परिहरपुरः कैठभवितः कठोरे कोटीरे स्खलसि जघी जम्बारिमकुटं प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवन भवस्याव्युत्थाने तव परिजनोत्तिः विजयदे स्वदेहोद्भूताभिः गृणिभिः अणिमात्याभिः अभितग निषेव्य नित्ये त्वाम सदा भावयति अगिमाश्चर्य तस्य तृनयनसंवृद्धिं तृणयतो महासंवर्द्राग्निः विरचयति हीराजनविध्य तुषष्ट्या तन्त्रैः सकलम् वतिसन्धाय भुवनो स्थितः तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतेः पुनकत्वं निर्बन्धातु अखिलपुरुषार्थैकघटना स्वतन्त्रं ते तन्त्रम् शितितलम् अवादीरिदम शिव शक्ति काम क्षितिरथ रिशीतरण स्म सच्च्र तदनु पर अमी खुलेखा स्रुभि अवसानेषु घटिता भजन्ते वर्णास्ते तव जननी नामावयवता निधायैके नित्ये निरवधिमहाभोगरसिकाक भजन्ति त्वाम् चिन्तामणिगुण निबद्धाक्षवलयाक शिवाग्नौ जुक्वान्तक सुरभिद्रुत धाराकुतिशते शरीरात्वा शम्भोग शशिनिधिरवक्षोरुगयुगम् तवात्मानं मन्ये भगवति नवात्मानमनघम् अतकशेषकशेषित्ययम् उभयसाधारणतया स्थितकसम्बन्धो वा समरसपरानन्दपरयोगो मनत्वं व्योमत्वं मरुदसि मरुत्सारथिरसि त्वमापहत्वं भोभिः त्वयि परिणतायां न त्वमेव स्वात्मा परिणमयितु विश्ववपुषा चिदानं दकारं शिवयुवती भावेनाभिवृशे तभाग्याचक्रस्थं तपनशशिकोटिद्युतिधरु परं शम्भुवन्ते परिमिलितपार्श्वं परचिता राज्ञो भक्त्या प्रविश्य शिशुशीलामभिषये निरालोके अलोके निवसति भालोकभुवने ए शुद्धौ ते शुद्धस्फटिकविचतं व्योमजनकम् शिवसेवे देवीमपि शिवसमादव्यवसिता यहोक्कान्त्यायान्त शशिकिरणसारुप्यसरणे विधूतान्तर्त्वान्त विलसति चकोरीव जगती समुं मीलत्संवित् कमलमकरं दैकरसिकं भजेखं सत्त्वं त्वं किमपि मा मानसचरं यदा अष्टादशगुणित विद्यापरिणति यदत्ते दोषाद्गुणम् अखिलम् अभ्यः पयैव <todic magazine> तव स्वाधिष्ठाने उतबकम् अधिष्ठाय निरतं तमिळे संवत्तं जननि महितीं तां च समया यदा लोके लोकान् दहति मखसिक्रोधकलिते दयार्द्राया दृष्टिः उपचारं प्रचयति तटित्वं तं शक्य तिमिरपरिपङ्क्तिस्फुरणया स्फुरं नाना रत्नाभरण परिणद्धेन्द्रधनुषं तव श्याममेकं कमपि मणिपूरैकचरणौ निषेवे वर्षान्त हरमिगिरतप्तं त्रिभुवन सकसमया लास्यपरय नवात्मानं मन्ये नवर्णसमदाताण्डवनकम् उभाभ्यां ज्ञेताभ्याम् उदयविधिम् उद्दिश्य दयया सनाथभ्यां जज्ञे जनकजननीमतु जगदितौ गतैर्वाणिक्यत्व गगनमणिभि सान्द्रघटितौ किरीटं ते हैमं हिमगिरिसुते कीर्तयति यग सनीडयच्छायच्छूरणजबलम् चन्द्रशकलं धनुशौणा क्षीरं किमिति न निबध्नातिधिषण्णा धुनो तुध्वान्तं न क घनस्निग्धस्लक्षणं चिकुरनिकुरुम्बं तव शिवे यदियं सौरभ्यं सहजम्बुपलब्धुं सुमनसख वसन्ति अस्मिन् मन्ये बलमथनवाटीबिटपि नोतुक्षेमं नग तव वदनसौन्दर्यलगरी परिवाहस्रोतकसरणिरिवसीबन्तसरणिः वहन्तिः सिन्दूरं प्रबलकबरी भारतिमिरद्विषा वृन्दैः बन्ति कृतमिव नवीनार्ग किरणम् ्रालैकी स्वाभावयात् अलिकलभश्रीभिः अलकैकी परीतं ते वक्त्रं परिहसति पङ्केरुहरुचि तरस्मे यस्मिन् दशनरुचि किञ्जल्करुचिरे सुगन्धौ माद्यन्ति स्मरदगनचक्षुः मधुलिहः ललाटं ला लावण्यद्युतिविमलम् आभाति तव यत् द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलं विपर्यासज्ञासात् उभयमपि सम्भूय चमितगया सुधा देहस्यूतिः परिणमतिरागाहि मगरग भूपौ भुग्ने किचि भुवन भय सनिनी भयभंगव्यसनेदी नेत्र मधुकुचिभ्या धनुर्मण्ये सव्यृगत प्रतिपतेगे प्रकोष्टे मुष्टौ च स्थगयति निकूढान्तरं भुमे अहःसूते सव्यं तव नयनम् अर्कात्मकतया त्रिया मां वामं ते सृजति रजनीर्णायकतया तृतीया ते दृष्टिः दरदरितये माम्बुजरुचिः समाधत्ते सन्ध्यादिवसनिशयो अंतरचरि विशाला विशालकल्याणि स्फुटरुचिः अयोध्या कुवलयैकी कृपाधाराधार किमपि मधुरा आभोगवतिका अवन्ति दृष्टिस्ते बहुनगरविस्तारविजय ध्रुवं तत्तं नाम व्यवहरणयोग्य विजयते हे कवि सन्दर्भस्तपगमकरैकरसिकम् कटाक्षव्याक्षे बभ्रमरकलभू कर्णयु वनवरस आस्वादतरलौ असूय संसर्गात् अलिकनयनं किञ्चिद्दरुणौ शिवे शृङ्गारार्द्रा तदितरचने कुत्सनपरा सरोषा गङ्गायां गिरिशनयने विस्मयवती हराहिभ्यो भीता सरसि रुगसौभाग्यजननी सखीषुस्मे राते मयि जननि दृष्टिः सकरुणा गते कर्णाभ्यर्नु गरुत इव पक्ष्माणि दधति पुराभयतु चित्तप्रसमरसपित्रा बणफले इमे नेत्रे गोत्रा धरपति कुलोत्तं कलिके तवा कर्णाकृष्टस्मरशरविलासं कलयतः यतिचरितलीलाञ्जनतया विभाति त्वन्नेत्र कृतयमिदम् ईशानदयिते पुनः स्रष्टु देवा द्रुहिण हरिरुद्रान् उपरतान रजः सत्त्वं इति गुणानां त्रयमिव पवित्रीकर्तुं नख पशुपतिपरादीनहृदये दयामित्रैर्नेत्रैः अरुणधवलश्यामरुचिभिः न दशोणो गङ्गातपनतनयेति ता ध्रुवमुत्रयाणां तीर्थानाम् उपनयसे सम्भेदम् अनघं प्रलयमुदयं ज्ञाति जगति तवे कुपुसं तत धरणिधरराजन्यत्र नये त्वदुन्मेषातं जगति तम् अशेषं प्रलय तथा परित्रातुं शङ्के परिकृतनिमेषास्तवदृशग तवापर्णे कर्णे जपनयन पैशून्यचकितग निलीयते यतो ये, निली ये नियतमनिमेषाच्च परिजय इयं च श्रीर्बद्ध पुटकपाठं कुपलयं जघाति प्रत्युषर निशिच विघटय्य प्रविशत् शाद्राघी यस्य दरदलितनीलोत्पलरु च दवीयां सन्दीनं स्नपय कृपया मामपि शिवे अनेतायं धान्यो भवतिन न च तेहा निरीयत वने वा समकरनिपातो हिमकरक अरालं ते पालीयुगलम् अगराजन्यतनये न केषामाधत्ते कुसुमचर कोदण्डकुतुकम् तिरश्चीनो यत्र श्रवणपथं पुल्ल अपागव्यासं गो दिशति शरस्सम् धनधिषण्णा भोग प्रतिफलित प्रतिफलितटंकयुगण चतुक्रम मे तव मुखाद मन्मथरत युह्य दृह्यति अवनिता अर्घे दुचरण महवीरो बार प्रमथपतये सज्जितवते सरस्वत्याकसूक्तिः अमृतलकरी कौशलकरीः पिबन्त्यागर्वाणी श्रवण चुलुकाभ्यामविरलं चमत्कारश्लाघाचलितशिरसगणो णकारैस्तरैः प्रतिवचनमाचष्ट इव ते असौ नासावंशः तुहिनगिरिवंशध्वजपटे त्वदीयो नेदीयः फल तु फलम् अस्माकुजितु वहत्यन्तर्मुक्ताः शिशिरकरनिश्वासगलितौ सम्पृद्या बहिरपि प्रकृत्या आरक्तायस्तव सुदपि दं तच्छतरुचे प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता न बिम्बं तद्बिम्ब प्रतिफलनरागादरुणितम् तुलाम् अद्या रोढु कथमिव विलज्जेत कलया स्मितज्योत्स्नाजालम् वदनचन्द्रस्य विबताम् चकोराणाम् आसीत् अतिरसदया चञ्चुजडिमा अतस्ते सीतां शोको अमृतलहरीम् आम्लरुचय पिबन्ति स्वच्छन्दम् निशि निशिभृश काञ्चिकधिया अविश्रान्तं पत्युर्गुणगण तथा म्रेडन जपा।, जपा पुष्पच्छाया तव जननि जिह्वा जयति सा Parinamati Malikya Vapusha ah, ah, ah, ah, ah. अपकृतशिरस्त्रैः कवचिभिः निवृतैः चण्डां चतुर्पुरकर निर्माल्यविमुखैः विशाकेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकल विलीयते मातस्त्व म्बूलकबलग विपञ्च गायन्ति विविधमपदानं पशुपते त्वयारब्धे वक्तुं चलितशिरसाधुवचने तदीये माधुर्ये अबलपि तदन्त्रीकलरवा निजा वीणां वाणी निचोदयति चोलेन निभृतं गिरिणा वत्सलतया गिरीशे नुदस्तम् मुकुकु अधरपानकुलतया करग्राख्यं शम्भोग मुखमुकुर वृन्दं गिरिसुतेयं कथं कारम् भ्रूमस्तव चुबुकम् ौपूय रहितौ भुजाश्लेषान्नित्यौ पुरदमयितुः कण्टकवती तव ग्रीवाधत्ते मुखत्कमलनाल चम्पालमलिना मृणालीलालित्यं वहति यदधो रेखातिस्रगतिगमकगीतैकनिपुणे विवाहव्यानद प्रगुणगुणसङ्ख्या प्रतिभुवक विराजन्ते नादाविधमधुरराग आकरभुवायाणाम् ग्रामाणाम् स्थितिनियमसीमानयिब देये मृणाली मृद्वीनां तव भुजलतानां चतश्रुणा चतुर्भिके सौन्दर्य सरसिजभवग स्थौति नखे नखेभ्यसन्त्रस्य प्रथममथनादान्तकरिपोगो चतुर्णां शीर्षाणां समं अभयहस्तार्पणधिय नखानां बुद्योतैकी नवनलिनरागं विकसताम् कराणां ते कान्तिम् कथय कथयामकथं मे कयाचित्वा साम्यं भजतु कलयाकं तकमलम् यदि क्रीडल्लक्ष्मी चरणतदलाक्षारसचरणम् समं देवी स्कन्दद्विपवदनपीतं स्तनयुगं प्रवेदं न खेदं हरतु सततं प्रस्नुतमुखौ mm -hmm. यदा लोक्या आशङ्काकुलित हृतयोगासजनक स्वकुम्भौघेरं भग परिमृशति हस्ते न झटिति अमुते वक्षोजम् अमृतरसमाणिक्यकुतुको न सं देखस्पन्तः नगपतिपताके मनसि नग पिबन्तौतो यस्मात् अविदितवधूसङ्करसिकौ कुमारौ वद्यापि विरदवदनक्रौञ्च दलनौ वगद्यौ स्तम्भे कुंभ प्रकृति के सार मुक्ता मणिभि अमला कारलटिका कुच भोगो बिधर ऋचि अंत बलिता प्रतापव्या श्रा पुर्दमयि कीर्तिवते ये, ये। तवस्त अन्े धरिधरकणे हृदयतक मयक् पारावारक परिभटति सारस्वतमिव दयावत्या दत्तं द्रविडशिशुः आस्वाद्यतवयतु कवीनां प्रौढानाम् अजनिकमनीयकवयित्त धज्वालाबलि अबलढ गभरे नाभी सरसी कृदस गो मनसी जग सस्मा अचल धूमति जनस्ता जानिते तव जननि प्रोमावलिरिति यदे यदे तनुतरतरंगा तनुतरतरङ्गाकृतिशिवे कृषे मध्ये किञ्चिज्जननि तव यद्भाति सुधिया किमद्दाद् अन्योण्यम् उचकलशयोगो अन्तर्गतं तनूभूतं व्योम प्रविशदिव नाभिं कुकरिणीः गङ्गावर्तक स्तनमूलरोमा बलिलता कलाव कुसुमचर ते जोकुत भुजख रते, जो रते लीलाकारं किमपि तवनायाभि गिरिसुते य विलक्वारुसिद्धेर्गिरिशनयनां विजयते य निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो न मन्मूर्ते के नारीतिलकशनकैकी त्रुट्यतीव चिरं ते मध्यस्य त्रुटि तत्तटिनीतीरतरुणाया समावस्थास्थेम्नो भवतु कुशलं शैलतनये कुचौ सद्यः स्वित्यत्तटघटित पूर्पासभितुरा कषन्तौ दोर्मूले कनककलशाभौ का कलयताया तवत्रातु भङ्गात् अलमिति बलग्नौ तनुभुवाय देवीत्रिवलि लवनीवल्लिभिरिवृत्वं विस्ता इति धरपतिः पार्वति निजा नितम्बत् आचित्य त्वयि करणरूपेण निदधे अतस्ते विस्तीर्णो गुरुरयमशेषा वसुमतीं निदम्ब प्राग्भारग लघुत्व नयति चक्र करीन्द्रणं चुण्डानु कनककदली काण्टपटली उभाभ्याम् ऊरुभ्याम् उभयमपि निचित्य भवति पत्युपु प्रणति कठिनाभ्यां गिरिसुते विधिज्ञे जानुभ्याम विबुध करि जेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्घेते विषमविशिखो बाढमकृत यदग्रे दृश्यं ते दशचरफलाकपादयुकली नखकृच्छत्मानं सुरपकुटचाडैकनिशितक श्रुतीर्थति तव शेखरत शिरसिदयया चरणौ ययोः जटा पशुपतिजटाजूटतटिनी ययोर्लाक्षालक्ष्मीघी अरुणकरिचूडामणिरुचिखी चूडा गो वाकं त्रूपक नयनरमणीयायपदयोगो तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते रसालक्तकवतेये ये असूयति अत्यन्तं यदभिहननाय स्पृहयते ये प्रमदवन कङ्केलितरवे मृषा गृत्वाोत्रस्खलनम् अथ वैलक्ष्यनमितौ ललाटे भर्तार, चरणकमले ताडयतिते, ते चिरा शल्यो खन कृतौ लितवता तु कोटि क्वाणी किलि किलि तू ईश गन्तव्यम् इभगिरिनिवासैकचतुरौ निशायां निद्राणां निशि चरमभागे च विशदौ वरं लक्ष्मीपात्रं क्षीयमति सृजान्तौ सरोजं त्वत्पादौ जननी जयतकचित्रमि गु पदं की ते कीर्तिना प्रबतमपतं देवी विपदा कथं नीतं सद्भिः कठिनकमठी कर्परतुला कतो वा उपयमनकाले पुरभिद यदा दायाज्ञस्तु दृशति दयमानेन मनसा ैर्नाकस्त्रीणां करकमलसङ्कोशिशिभिः तरूणां दिव्यानां हस्त इव ते चण्डिचरणौ फलादि स्वहस्तेभ्यः हिसलयकराग्रेण ददताम् दरिद्रेभ्यो भद्रां श्रियम् अनिशम् अह्नाय ददतौ ददाने दीनेभ्यः श्रियमनिशौ आशानुसदृशीम् अमन्तं सौन्दर्यप्रकरमकरं दोविकिरति ये तव स्वाग्दारस्तभग सुभगातु चरणे निमज्जं मज्जीवग षट्चरणता पदङ्ग्यासक्रीडपरिचय इवारब्धुमनसः स्खलन्तस्ते खेलं भवनकलहं सान जगति अतस्तेषां शिक्षां सुभगमणिमञ्जीररणितच्चला आचक्षाणौ चरणकमलं चारुचरिते गतास्ते मञ्जत्वं द्रुहिण हरिरुद्रेश्वरभृतग शिवः स्वच्छाया घटितकपटप्रच्छदपटः त्वदीयानं भासा प्रतिफलनप्रागारुणतया शरीरे शृङ्गारो रस इवदृशा तोब्धिकुतुक केशेषु प्रकृतिसरणा मन्मदहसिते शिरीशाभाचित्ते दृशदुपलशोभाकुचतटे भृशं तन्विमध्ये पृथुरुरसिजारोहविषये जगत्रातुं शम्भोर्जयति करुणा काचिदरुण कलङ्कः कस्तूरी प्रजलिकरबिम्बं जलमयौ कलाभिः कर्पूरैर्मरगतकरा निबिडितौ अतस्त्वद्भोगेन प्रतिदिनमिदौ रिक्तकुगरम् विधिः भूयो भूयो निबीडयति नू नौ तव कृते पुरा रातेर्लौतः पुरमसि ततस्त्व चरणयो सपर्यामर्यादा तरलकरणाम् असुलभा तथाह्येते नीताकशतमखमुखाः सिद्धिमधुना तव द्वारोपान्तस्थितिभिः णिमाद्याभिः अमराक जलत्रं वैदात्रं कति कति भजन्तेन कवयः श्रियो देव्याः को वान भवति पतिः कैरपि दधैः महादेवं हित्वा तवसति सतीनम् अचर मे कुभ्या आशंकोर असुल गिरा कुर्देवी दृहिणगृहिणी आगमीद रेः पत्नीं पद्मां हरसहचरीम् अत्रितनया तुरीय कापि त्वं दुरधिकं निःसीमहे वा महामाया विश्वं भ्रमयसि परब्रह्ममहिषी कथय करिता लब्दकरसं पिबे विद्यार्थी तव चरणनित्ये जनजनौ प्रकृत्यामुखानामपि च कविताकारणतया कदा धत्ते वाणीमुखकमलतामूलरसत सरस्वत्या लक्ष्म्या विदिहरिसपत्नो विहरते पाति प्रतेघेय पातिव्रत्यम् शिथिलयति रम्येण वपुषय शिरं जीवन्नेव शपितपशुपाशव्ययिकरखय परानन्दाभिख्यं रसयति रसं त्वद्भजन वा प्रदीपज्वालाभिः चंद्रोपल दिवसकरनीराजनविधिः सुधासूते चन्द्रोपलजलवैराग्यरचना स्वकीयैके अम्भोभिः सलिलनिधिसौहित्यकरणभिः तव जनानि वाचां स्तुतिरियं